गरुडपुराणम् आचारकाण्डम् अध्यायम् ट्वेन्टि शूद उवाच वक्ष्ये तत्परमम् गुह्यम् शिवोक्तम् मन्त्रवृन्दकम् पाशं धनुश्च चक्रं च मुद्गरं शूलपट्टिशम् एदैरेवा युधैर्युद्धे मन्त्रै शत्रूञ्जये नृपः मन्त्रोद्धार पद्मपात्रे आदिपूर्वादिके लिखेद अष्टवर्गं चाष्टमम् सख्यागमीशानपत्रके ओङ्कारो ब्रह्मबीजं स्याद्रृङ्गारो विष्णुरेव च ह्रीङ्कारश्च शिवशूले त्रिशाखेदुक्रमान्यसेद ॐ ह्रीं ह्रीम् शूलं गृहीत्वा हस्तेन भ्राम्य चाकाशसम्मुखं तद्दर्शनान्द्राः तद्दर्शनान्द्रः तद्दर्शनान्द्रहानाः दृष्ट्वा वा नाशमाप्नुयुः धूमारक्वेकरम् मध्ये ध्यात्वा खे चिन्तये नरः दुष्टानागाग्रहामेका विनश्यन्धिजराक्षसाः त्रिलोकान् रक्षयेन्मन्द्रो मर्त्यलोकस्य का कथा ॐ जूं सूं हूं फट कादिरान्कील का, का क्षेत्रे सम्मन्द्र्यविन्यसेल न तत्र वज्रपादस्य स्फूर्जध्वादेरुपद्रवः गरुडोक्दैर्महामन्त्रैकीलकानष्टमन्त्रयेद एकविंशतिवाराणि क्षेत्रेदु निखनेन्निशि विद्युन्मूष्रकवज्रादि समुपद्रव एव हरक्षमलवरय दिन्दुयुक्तः सदाशिवः ॐ प्रां सदाशिवाय सदाशिवा नमः तर्जन्या विन्यसेत्पिण्डम् दाडिमी कुसुमप्रभम् तस्यैव दुष्टामेक विद्युद्दिपादयः राक्षसा भूदडागिन्य प्रद्रवन्दिशो दश ॐ गणेशाय नमः ॐ प्रीं स्तम्भनादिचक्राय नमः ओम् ऐं बहयै त्रै लोकड लोक्यडामराय नमः भैरवम् पिण्डमाख्यातम् विषपापग्रहापथम् क्षेत्रस्य रक्षणम्भूत राक्षसादेः प्रमर्दनम् ओम् नमः इन्द्रवज्रम् करे ध्यात्वा दिष्ट मेखादिवारणम् विषशत्रुगुणाभूता नश्यन्दे ुं नमः स्मरेत् पाश्यं वामहस्ते विश्वभूताधिनश्यदि ॐ नमः हरेदुच्चारणान्मन्द्रो विश्वमेकग्रहाधिकान् ज्ञात्वा कृतान्तम् च दहेच्छेतकास्त्रेण वै जगद ॐ क्ष्मा नमः जात्वादुभैरवम् कुर्यान्द्र ग्रह भूतविश्वापम् ओं स जिदिजिह्वाक्षस्वाहा क्षत्रादौ ग्रहभूतादिविश्वपक्षिनिवारणम् ॐ क्ष्व नमः रक्तेन पडहे लिख्य शब्दास्तेषु सुगर् सुग्रहादयः मारय मारय स्वाहा ॐ हुं फट् स्वाहा चूलम् चाष्टशदैर्म्य ब्राह्मणाच्छ्रुतृ ब्राह्मणाच्छत्रो वृन्दहद ऊर्ध्वशक्तिनिपादेन अधशक्तिम् निकुञ्चेयेद पूरके पूरिता मन्त्रा कुम्भकेन सुमन्त्रिताः प्रणवेनाप्यायितास्ते मनवस्तदुदीरिदाः एवमाप्यायिदा मन्त्रा भृत्यवद्भलदायकाः इति श्रीधारूडे महापुराणे आचारकाण्डे विषादिहरमन्त्र बृन्दनिरूपणम् नाम विंशोऽध्यायः ओम्